ुतीजनयन्त प्रशस्तम् गृहपादिमथर्युम् समग्निमस्ते कुतश्चित् दक्षायोदमास नित्याह प्रेध्वो अग्ने दीदिः पुरो नोजस्रया शून्यायविष्ठ श्वन्तमुपायन्तिः प्रदे अग्नयोग्नेभ्यो वरम् निःसुवीरा शश्वन्दाः यत्र नरः समासा ते सुः दानो अग्नेयालयम् सुवीरम् स्वपमत्यम् साहस्य प्रशासनम् नयम् जावातरातिजातुमावा उपजमेजी युवतिः सुदक्षम् दोषावस्तोर्हविष्माजिघृताजी उपस्वेन परमादिर्वसूयुः युष्मा अग्नेपधाराचीर्यभिस्तपोभिरदभोजरूथम् प्रविश्वरम् चादयस्वामी वाम् आयस्ते अग्नजिधले अणि कम्बशिक्षसुक्रदि वक्पागा उतो न जेभिस्तपधैरिहस्याः वियेते अग्नेभेजिरे अणी कम्बर्तारसः पित्र्या सः पुनत्रा उतो न जेभिः सुमनाजिहस्याः इमे नोहतेषु सूविश्वादे वीरभिषम् तु मायाम् पनयनम् द प्रशस्ता मासो ने अङ्के निषदा मधृणा मासे वीरता परित्वा प्रजा पाषु दुर्जासु यमस्मी नित्यमुपजाति यज्ञम् प्रजावन्तम् स्वभत्यम् क्षयम् नः स्वजन्मना शेष सा वा प्रधानम् पाहि नोः अग्ने रक्षसो अजुष्टा त्वाहि धूर्तेरारुषो अघायोः त्वायुजावृतनायो ग्रहिष्याम सेदग्निरग्नीत्यस्त्वन्यान्यत्र बाजीतलयोः सहस्राथा अक्षरा समेति सेदग्निर्यो वा निष् निपाति समेद्ध नमङ्गीचरन्ति वीराः अयम् स्व अग्निराहूतः पुरुत्रायमीषानः स विनिन्ध्ये रष्मान् रुगोता, त्वे अग्न आहवनानि भूरिशानास आजूहुयामनित्या उभा गृह् वहतु मियेधे इमो अग्ने भीतदामानि हव्याजस्रो वक्षि देवता जिमच्छ प्रतिनयीम् सुरभि निव्यन्तु मानो अग्ने वीरते परादा दुर्वासे मातये मानो अस्ति मानाक्षुते मा रक्षसा हृता भो मानोदमे वानायुहूर्छाः नो मे ब्रह्माण्यग्नमुच्चदाधि त्वम् ्यामोपयासादे यूयम् वा तस्वस्भिस्वदा नः त्वमग्ने गपो रङ्गसंरत्सुति यूनो सहसोदि अस्मन्नोविदासीत् मा नो अग्ने दुर्भृतजेश तेषु देवेद्येष्वग्निषु प्रभोचः ते अस्मान्नुर्मतयो अभ्रमाचिद्देवस्य सोनो दहसो सन्त समन्तो अग्नेष्वनीकरे नमत्ये याति हव्यम् स देवता वसुपनिम् दशधियम् सूरिरक्षि पृच्छमा नलेति महोनो अग्ने सुजस्य विद्वान् प्रयम् सूर्यभ्या वह बिलन्तम् ेनमदेवा भीक्षिता सायूषा सुवीराः नो मे ब्रह्माण्यग्रमुच्चि त्वम् देवमघवद्भ्यः सुमौ स्यामोभया सा ते यूयम्बात स्वस्तिभिस्तदा नः भद्रं नोभितमाः ओ ृण् च दिव्यम् दानस्तो वैस्सुस्तदनसूर्यस्य महिमानामे रामुपस्तो रामजलस्य यज्ञैः ये शुक्रदापशु च योधि यन्धा सुरन्ति देवा भजा नि न्दूतम्पर्यवो भरमाना अभिर्ज्ञु प्रवृञ्जते नौ आजुह्वानाघृतभृष्टम् बृहध्वदध्वर्यवो हविषामर्जयध्वम् स्वाध्यो विदुरो देवयन्तो शिश्रयूरथयुर्देवता पूर्णेषु जन्नमातरादिघाने समुद्रपोनसमानेष्वञ्चन् दिव्ये महीना गुरादानका हरिषदा पुरुभूते मघो नीला ज्ञायस्वेषाम्प्राः यज्ञेषु मानुषेषु कालूमन्ये वाञ्जातवेदारम्भवेषु तेष्वनो बाल्यानि र्वा तिस्रो देवीर्बर्हिदं सन्तु तन्न पोष विष्णुदेव त्व राणस्य स्म न्य सुदक्षो युक्तग्रामः आयाग्ने समिधानो अर्वा इन्द्रेण देवैः सह समम् सुरेभिः सुपुत्रा स्वाहा देवामृता मालयन्ताग्निम्बो देवो राजजेष्ठम् धूतमध्वरे कृष्णुध्वम् यो मध्ये हृदा वातूर्धा घृतान्नः पावकः रोधो देवेश्व आदश्च पादो अनुपाति शोचरथ स्वदे प्रजानम् कृष्णमस्ति उद्यस्य देनेतरञ्जराय अच्छाद्यो धूपेण भूतो अग्नेय श्रे हि देवा देव्या बालो अश्रे तृषणनाम्बैः ेन धृष्टुक्वाष्टमज्जयन्तः निशिता नादिनौ दीताय शोचिलाहु दस्य कृष्णाः सन्दृक्ते स्वने गाप्रदे गाम् व्य दृग्मो नरो च समुपाले दिवो न ते तन्यदुरेष्पत्रो नो न प्रति चक्षिभाव हव्यैः एभिन्नाग्ने अवीतैर्महाभिस्तमोद्भिराजा ते सन्ति दादृशे अधृष्टा गिरो बालाभ्यन्दृपतिरुषाः ताभिन्नः सूलोदो निर्यतपूते बस्वधी जिष्वर्गार्चा हन्वाचमानः त्रो दृशेऽन्यो जनिष्टयज्याय सुक्रतुः पावकः एता नो अग्नेसौभागादिधीयक्रतुम् सु सुचेता संवदेव विश्वास्तोतृभ्यो गणते सन्तु यूयम् पात स्वस्य भिदा नः शुक्राज भान्वे सुभूतम् ैव्यादिगाति स हृत्स्वाग्निष्टरो नश्चि नोष्ठो अजनिष्टमातुः संयो ते सुन् भूरि चिदन्नाथमितर्ति सद्यः अस्य देवस्य नमदनजनीकेयम् मम का श्वेतम् च गृभ्रे नियोज दुरोच अग्निराजवे दुरोच अयम् कविलकविश्व प्रदे तापर्तेष्वग्नि समानो अत्र जुहुलः सहस्व सदाम अयोनिम् देवकरे तं सदा अग्निनमकृतारीत् धीश्च परिणश्च गर्भम् भूमिश्च विस्तयम् विभर्ति नीते राजसुवीर्यस्य धातोः मा त्वा जङ्गदाय रावणी रामाप्सर्वपरिषदा म माधूः परिषद्यम् चरणस्य नित्यश्च राजः पतयस्याम न शेषो अन्यजा तमश्चेता न शमापथो विदुक्षः न निद्रभाजारोऽन्यो धर्यो मनसामन्तबहु अथाचितो क पुनरुत्स चेत् जानो वाज्यभीषाले भूजाः सररा सन्त्वाे पाधस्सं रजस्त्रे रजायः सहस्री केलानौभागादिदीक्ष्य विक्रमम् विश्वास्तो तृभ्यो गणते सन्तु यूजम्बादस्वस्तिभिस्तनः भरध्वङ्गिनम् दिवरये पृथिव्याः एव विश्वे काममृतानामुपस्थे वैश्वानलो वा मृधेजाग्रपद्भिः कृष्णो दिविधा यज्ञः पृथिव्याम् नेता सिन्धूनामृगभस्त्यानाम् समानो हिरभिनरो नो वरे तद्भिया पिशान्त ीलादन्तालश्रेण सोदृशासु सो जाने हो वा न विरस्रन्तेधुना यो गताजी पतिम् कृष्णीनाम् रक्षम् दयीनाम् मयि स्वानरमुनः हेतुमन्नाम् वे ङ्क्रतुम्भिते वित्रमो धिषन्तोन्द्रोकासो अग्नयुरुज्योतिर्जनजन्नार्याय स जाय मानः परमेव्योन्नायन्नपासि जा सद्यः त्वम्भुवाजनजन्नभिक्रन्न पत्याय जातमेदोजन् े आत्मयिमेलायस्तैस्वानद्युमतीवो दामत्याः पुरुक्षम् दयिन्निवाजाम् स्वुवस्व ऐश्वारमहीनः शर्मा युद्रेभिरग्ने वसुभिः सुभाः कृष्टी नामानुमाद्यस्य इन्द्रस्यैव प्रदानकृतानि वन्दे दारुम् वन्दमानोग्नि कविम् केतुम् धासिम् भानुमद्रे हृण्वन्दिम् राज्यम् रोदस्योः पुरन्दरस्य गीर्भिराविवासे नृदानि पूज्या महानि यो नो अध्रवायः पनीर्न श्रद्धायज्ञानप्रदानस्योऽपि वायूर्वाश्चकारा परायजून् यो आपाचीने तमसि मदन्ति प्राची चकारीभिः ो अग्निमयन्तर्यो अर्यपत्नीको अग्निर्विषश्चक्रे परिसहोऽ जन्मण्डु भविश्वेनादये वैतस्तमतिम् वीक्षमाणाोराग्निः सदातपित्रोरुपस्थम् आ देवोदेव बुद्ध्या आपूनि वैश्वा नर उदीता सूर्यस्य पृथिव्याः प्रभो देवम् च सदालमग्रिमस्वर्णवालिनम् हि मे नमोभि भवानो दूतो अध्वरस्य विद्वान् देवेषु विविदे विद्रूह आया यज्ञे मत्स्या अनुस्ता मन्द्रो देवानाम् सख्यञ्जुषाणा आदानैर् नृतयन् पृथिव्याजम्भेभिर्विश्व मुसधग्मनानि प्राचीनो यज्ञस्तुीतव्यते अग्निलीलो न होता मा रेष्ठजग् सुसेवा सद्यो अध्वरेञ्जानन्दमानुसोऽपि चेदशो जेषाम् विशा माधायिनिष्पतिर्दुरो मन्त्रो मधुपचार ब्रह्मा ्रदो वह्ने राजगण्डा नक्लिर्ब्रह्म निषदािबीवाते आजम्बोतारन्द्रं जेवान्द प्रजेभिषस्तिरन्धस्रोणमा नाजेमे अस्य जीध ो त्वामग्नजीवने प्रतिष्ठायीनोदसो वसूनाम् इषम् स्तोतृभ्यो भगवद्भ्याम् पादस्वस्तिभिस्ते राजालमनजोलमोभिरजस्य प्रतीकमाहूतम् घृतेन न को हव्ये भीरीलते समासाग्निरग्रमुषसामशोचि अयमुष्य सुभाम् मन्त्रो मनुजो यः को अग्निः विभागस्य सृजानः पृथिव्याम् कृष्णवीभिर्वक्षे अजा नो अग्ने विवासस्तु भृत्यम् कामः स्वधाम्रेण कथा भावे भवता यस्तु तत्र राजो वनन्दारो प्रायर्भरश्चेभ्यो द्यो नो चाः अभियुरम् मृदौ द्योदानो देव्यो अतिशुष्व च अदने ते आहव राभु ऋभुवो विश्वे विश्वकैः श्रुतश्चेदण्डे गृङ्गे गृहानयं वर्ध इलम्बसदसा संसारमुदाुवर्वा संयत्स्तोतृभ्य आपये भवादिद्युमदानम् रक्षोहामग्नये महे वसिष्ठा ईशानम् सूलोदः सोपसूनाम् इळम् स्तोतृभ्यो मघवद्भ्या लड्जूयम् पाद स्वस्तिभिस्वधा नः अबोधिकारद्धः कवितावत्पावकः तथाधिकेतुमुभयस्य जन्तो राव्या देवे रुद्रवीणम् सुहृत्सु स चक्रधुर्यो विदुरः पलीनाम् पूर्णार्कम् पूर्वभोजम् नः होदा मन्त्रो विश्राम् दू नास्थिरस्तमो दलिश्यानाम् मो रः कविरजीतरुभस्वान् सुसंस्तान् मित्रो अजीज्यो नाः चित्रभाम् वाच्यग्रेपाम् गर्भ प्रस्वाद ईरेण्यो भो मनुषो युगेषु समनगा सुज्जालभेदाः सुसं भाषुनायो विभाजे प्रलिगावः आत्मेत्या ब्रह्म गणेन सरस्वती मधुरो अस्य आपो यक्षी देवाय विश्वाने स्वामग्ने धनि पुरन्धिम् स्तिभिः उषो न जानपृथुपायो अश्रेत्तरा भाति भासाधियो हिन्वानपूरीरीवः स्वास्तो दृढा मरोति यण् अर्जनजन्मानि देवा विद्वान् नवद्धूतो देवया भावनिष्ठः परच्छायिरो मदयो देवयन्तीरग्नियन्ते द्रवीरम् भिक्षमाणाः सुसन्दृतम् सुप्रतीकाम् स्वन्तम् मानूषाणाम् इन्द्रम् नोग्ने वसुभिश्वजोढा रुद्रम् रुद्रेभिरावाहाभिरन्तम् आदित्येभिरी विश्वृहस्तृक्पाभिर्विश्ववारम् मन्द्रम् भोदा नुषुजोजिश्वरभाय देवान् स्य ध्वरस्य प्रकेतो न ग्रे त्वदृदामादयन्ते आविश्वेभि सर्वम् याहि देवैर्ण्य मे होदा प्रथमः स देह स्वामी रतेरज्वरम् दूत्या च हविष्वन्तन्मानुषासः यस्य देवैरासदो बहिरग्नेया अन्यस्मै सुदिनाः भवन्ति त्रिस्थी दत्तो प्रतीके गर्वसू नेत्वे अन्तर्दासु मे मत्यान् भवानो धूतो अभिरक्षि पाभा अग्निरीशे बृहतो हध्वरस्याग्निर्विष्टस्य हविषकृतस्य क्रतोन्ताथा देवादधिदेहव्यवाहम् आग्ने पर विरज्जाय देवालिन्द्रज्ज्येष्ठास इह माम् दिवि देवेषु धेहि यूयम् पादस्वस्तिभिस्तदा नगण्डमानमादायम् योजयिताय समिद्धस्वे दूरोणे चित्रम् रोदसी अन्धरुर्वी समह्ना विश्वा दुरितानि स्वाह्वानष्टा वेदमाजातवेदाः स नो रक्षिणद्दुरिजातस्वान् मघो नाः त्वम् मरो न उत मित्रो अग्ने त्वाम् वर्धन्ति मतिभिसिष्ठाः देवसु सुषणनानि सन्ति योऽयम् वा नः स्वस्तिभिस्रा श्वसु चे धिषन्धे सुरज्ञे मन्वाधिम्भरध्वम् भरेणा नो वै विश्वानरा जयता ये मतीनाम् त्वमेषु विशासोऽशु च न आरोदाधि अवृणाजायमानः त्वम् देवा अभिदेन मुञ्चो वै विश्वानरजात वेदो महित्वा जातोय अग्ने भुवनाव्यः पशून्न गोपायुर्यः परिज्ञमा ऐश्वानरब्रह्मणे विन्द गाधुम् यूयम् पाद स्वस्तिभिः सदा नः समिधा जातवेदेवभूदिभिः हविर्भिः शुक्रसो जिवे नमस्ति नो वयम् दासे माग्नजे अयम् दे अग्ने सविधा विधेमयम् दासेव अयम् घृतेनाध्वरस्रहोदर्मयम् देव हविषा भद्रोते आनो देवेभिर्व देवभूतिमग्ने जाहिकृतिम् जुषाणः तुभ्यम् देवा यदा सदस्यामयूयम् पादस्वस्तिभिः स्वदा नः उपसस्याय आस्येदाहनिः नः पञ्चमे कविर्गृहपजर्षुपा स नो मेधो अमाद्यमग्निरक्षतु विश्वदाः उदास्मान्पात्वम् गातः <Sega> तो मा मग्नये दिवसेनाय जीजनम् वस्वनादीरः स्वार्गायस्य श्रियो धृतेवतो यथा अग्ने यज्ञस्य से सोजातः सेनाम् वेपकृतिमग्निर्जोषतनो गिराः यजेष्ठोऽहव्यवहारः नित्वाद्युमन्तम् देव धीमहि सुवीरामग्नाहुजा क्षटामुश्रश्च वयम् सुवीरस्त्वमस्मयोतजेनप्रासोयन्ति रक्षाम् श्रीधरि शुभ्रसो चिरवत्यः श्रुतिप्पामलीड्याः सोलाधा भरे नगश्च सो दाधुवार्यम् देवश्च सभिता भगाः दिनिश्च दाधिवार्यम् अनग्ने रक्षा नो अङ्गतिष्ठते बरीषदः तभिश्चैरज अधा तन्न अथा मनीनः यस्य न दृष्ट्वा सूजिः तन्नः पाह्यम् गासो दोषावयम् जयदिक्षमरणम् स्वध्वरम् विश्वस्य दूतमृतम् अर्षा विश्वभोजसा स रुद्रभस्वायज्ञ समीपसूनाम् देवम् राधो जनानाम् उदस्य सोजेन सदायुक्त्वा धूमालो अल् दिविश्वन्धते नः न्द्वा दूतम् गृह्महे यदस्तमम् देवा सहसो मोजनारा स्वहे त्वमग्ने गृहमादि त्वम् भूता नो अध्वरे त्वम् भूताः विश्वमारप्रदेतायक्षिवेशी च य शुक्रतो त्वं गिरत् न असि आराजते पृथ्वी सुतं सोऽक्षते त्वे अग्ने स्वभुत प्रियासः सन्तु सूदयः यन्त्रालो ये मघवा लो जनानामूर्वान्दयन्त गोणा ये शामिला हृदुरो नीर्घसृत् समन्द्रया चिह्जा वह्नि राजा विदृष्टारः अग्नेरयम् मघवध्यो न आबा किञ्च सूदय दे राधास्या मघा कामे न श्रव सोमः भिष्टम् सलोभिर्य देवो भोद्रविनोदाशियमम् उद्वासिद्ध्वपावृणध्वमादिद्वो देववो भो हरे तम् होदानमध्वनस्य प्रचेदसम्बह्निम् देवागृण्वता अग्ने र्जनायधाने भव सुधातमित बहिरुर्भिलाविश्रेणीताम् उत द्वारा बुधीर्विश्रयन्ता देवारेह अग्ने या कृतवेदः ध्वराकारतिजातवेदागच्छद्देवा अमृतान् विप्रगच्छेदः सनत्या भवन् आयुषो नो अद्य त्वामुदेहव्याहम् देवासो अग्नऊर्जातम् दस्यामो नो लत्राविद्याः हरीन्दरेन्द्र विश्वाजारो वसन् वह्वाम सुदेव यते मणि राजे महिषी भीक्षे सेवा मद्युजीरभितरुषे सन् राजे अत्र गोभिरस्त्वधानासो अत्रा मन्त्राणि देवयन्तिपस्तु अन्वाचीदेवचाराजये तस्यापेसु मताविन्द्रम्बन्धत्वा सूयव देशु दक्षानुब्रह्माणि देवदृष्टः स्वामिन्मे गोपाधिम्विश्व आहारन्द्रस्तु मतिम् गन्वच्छ अन्नाम् त्रिजत्वा प्रधाना सुदास इन्द्रो गाधान्यन्दम् दिव्यमुदसश्च न यः शापम् सिन्धू नाम कर्मोदस्ति दुर्वतोक्षूरासीद्राजे मत्स्यासो निशीता अपीव तृष्टिञ्चक्रभ्यो दृष्टा सखा न्योचो आसो भलादसो भवन्तालीनासो विहाणि आयो न यत्सखा आर्यस्य गव्यो अजगन् युधां श्रेवयम् तो पृथिवीम् पत्यामानः परुष्कविरासयच्चयामानः जीजुरथानेताभित्वम् जागाम सुदालीन्द्रुदुगा मित्रानम् धयन्मालोषेव ये या होयवा साधोपायचारमभिमित्रम् जिताः कृष्णे राम प्रश्ने प्रज्ञादृक्मयी कर्णयोर्ण्यस्ताः दस्मो न्येशादिभरिः सूरः सर्गामगलोदिन्द्रायेषा ृतम् द्रङ्ख्यं नरे नद्रबाहुः सङ्ख्याय सङ्ख्यम् बालम् भोजे आलुत्वा सद्यो विश्वा दृङ्तान्ये रान्द्रः पुनसप्त लब्धः ज्ञानेष् पूर्णम् विजते वृद्रवाच ोजुवस्य सदा वृष्णः सहस्वासो अधिक भोजु विश्वेरिन्द्र वीर्याग्नि इन्द्रेण दृत्स भोगे बिजाना पोन धृता धन्तीः ्यमाना युर्विश्वा निभो जना सुदासे अध्वम् वीरस्य श्रुतपामनिन्द्रम् पराशर्धं तं नुनुदे अमिश्राम् इन्द्रो मन्युन्यु विमाय पेदे पसो वत् ित्रद्वेकम् चकारित्रे त्वेन जघानेन्द्र प्रागच्छति श्वाभोजना सुम् दोहि सत्रा भोरा रदुष्टे भेदस्य चिच्छोविन्दरन्धिम् आवदिन्द्रम् जमुनादृत्स वर्ष प्रात्र सर्वदा वर्षाणिभ्र्याक्षे पूर्वाः सोनूत्नाः देवाखण् सुर्वदिष्ठः देव भोजस्य लक्ष्यम् मृषन्ताः सूरेभ्यः सुप्तुर्देवव तस्य देवो द्वारथाः वधूमन्दासुदासाः न्नपैजवनस्य दानम् होते वरद्वर्ये विरेहन् चत्वारो मा पैजवनस्य दानास्मद्दिष्टयः कृषनिनो निरेके विश्व माष्टास्मादश्लोकम् तोकायश्चहन्ति श्री अन्तरु श्रीकृष्णे श्रीकृष्णेऽपि भवादापि भक्ता साप्तेः स्रवतो गृणन्ति नियुध्य मतिमासिता इमम् नो मरुतः सदा रजि बोधासन्नपितरम् सुदासाः अविष्टना मैज मनशतम् धूनासम् क्षत्रमनरम् ृङ्गाणभीमरे श्रावविस्वाः स्वजस्य प्रजन्ता तिसुश्वजवेदाः त्वम् हिम् प्रकुत्स मा वस्तु श्रोषमानस्तन्वार्येष्टम् कुजा भञ्ज स्मारम् धर आर्जुने राजा शिक्षन् त्वं धृष्णो ऋषता भीदहं जम् प्राप विश्वाभिरुधिभिः सुतासम् अपौरुषदस्यु मा भ्राक्षेता व्रत्रेषु त्वं नृभन्द्रमणो देववी तौ भूरि हर्यहंसिन्नितस्य स्वापयोदभीराज योग्रानि भज्वहस्तदा नियत्पुरो न सद्यः निमेशे सतमाविहृत्रम् नमो च बुदाहन् राजाता इन्द्र भोजनानि राजहम् यागराजे द्वारे देहलीडा दिव्यम् त्व ब्रह्माणि पुरुषा गवागम् स्वाते अस्याम् सा गन्वच भूम हरिवरा वै सायस्वृे गर्वरो मघवन्नभिष्टौरो मदेव निरा त्वम् करिष्यन् सद्यश्चिन्नुते मघवन्न विष्टौ ने हेभिर्विपने सन्नस्माङ्ग्रेष्वयुज्या यदस्मै ते ते स्तोमानहाङ्गृतमनुभ्यमस्पद्यम् चो ददा भगानी े शिव भू दशोराजानृणा नून्द्रजोरस्त वा मानभूजि ब्रह्म जूदस्तन्वा वामृदस्व उप नो वाजान्विमेक्युपस्थिन्यूयं वा दस्वसदा उभृम् नो अपि वादयमुना नमो धृन्द्रयेन सो महर्षित् हन्तान्द सुबामे अहवामुकन्द तावसुरा दाजुषे भूत् त्रा विश्वम् शत्रूयन्तम् जघानेन्द्ररोदीमता विष्मज्रमिन्द्रो हरि वा निक्षन् सबन्धेषु बाभोच ृषा जानभृष नगाय तमु चिन्नारी नर्यं ससुगा प्रयस्य नो चेत् सभेण देलनो नरे अस्य घोरमाविवात् जग्नेन्द्रे देवाञ शिक्षय स राजऋमारु तेजाः ौर्वो <Sess> <Sess> अपराज्या जान् कनीयरोदे अमृतगिरिपर्यासीत दूरमाचित्रम्भीन्याः यस्याय प्रियोजनो ददाे अग्निवत्सखादे भयन्ते अस्यां सुमदौ च ऋमवरूधे अग्नदौन्वीतौ ेन क्रोमा जिगा पुनः साक्रपिष्ट नायस्कामो यानन्तघन्वभङ्गोलः स न एन्द्रत्वजायुषेधात्म जय मगवा नो जिगन्त्यम्बा सु Oh